पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय नमः शिवायै च नमः शिवाय कस्तूरिकाकुङ्कुमचर्चितायै चितारजः कृतस्मराये विकृतस्मराये विकृतस्मराय शिवायै च नय नमः शिवायै च नमः शिवाय जलत्कणत्कङ्कणनूपुराय पादाब्जराजत्फणिनोपुराय हे माङ्गदायै भुजगङ्गदाय नमः शिवायै जनम शिवाय नमः शिवायै जनम शिवाय विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय समेक्षणाय विषमेक्षणाय शिवायै च नमः शिवाय नमः शिवायै च नमः शिवाय रमालाकलिताकलायै कपालमालाङ्कितकन्धराय दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय नमः शिवायै च नमः शिवाय म्भोधरश्यामलकुन्तलायै तडिप्रभातां न जटाथराय निरेश्वराय निखिलेश्वराय नमः शिवायै च पञ्चसृष्टुं मुखलास्यकायै समस्तसंहारकताण्डवाय जगज्जनन्यै जगदेकपित्रेवायै च नमः शिवाय प्रदीतरत्नोज्ज्वलकुण्डलायै स्फुरं महापङ्गगभूषणा शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय नमः शिवायै च नमः शिवाय ये तत् पठेदष्टकमिष्टदं भक्त्या समाञ्जो भुवि दीर्घजीवी प्राप्नोति सौभाग्यमनन्तकालम् भूया सदा तस्य समस्तसिद्धिः